चाणक्यनीति तर्टी मुहूर्तमें जीवे चर शुक्ल नमण न कलम कषेन लोकद्विरोधिना कदेशोको न कर्तव्यो भविष्यम नित वर्तमानेन कालेन वर्तयन्ति विचक्षणाः स्वभावेन हितुष्यन्ति देवाः सत्पुरुषाः पिता ज्ञादयस्नानपानाभ्यां वाक्यदानेन पण्डिताः आयुः कर्म च वित्तं च विद्यानिधनमेव च पञ्चयितानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः अहो बदविचित्राणि चरितानि महात्मनां लक्ष्मीं तृणाय मन्यन्ते तद्भारेण नमन्ति यस्य स्नेहो भयं तस्य स्नेहो दुःखस्य भाजनम् स्नेहमूलानि दुःखानि तानि त्यक्त्वा वश्येत् सुखम् अनागदविधाता च प्रत्युत्पन्नमधिस्तथा द्वावेतौ सुखमेधेते यद्भविष्यो विनश्यति राज्ञि धर्मिणि धर्मिष्ठाः पापे पापाः समे समाः राजानमनुवर्तन्ते यथा राजा तथा प्रजाः जीवन्तमृतवन्मन्ये देहिनं धर्मवर्जितम् मृदो धर्मेण संयुक्तो दीर्घजीवीन संशयः धर्मार्थकाममोक्षाणाम् यस्यैकोऽपि न विद्यते अजागलस्तनस्येव तस्य जन्म निरर्थकम् बन्थाय विषयासंगो मुक्त्यै निर्विषयं मनः मन एव मनुष्याणाम् कारणं बन्धमोक्षयोः देहाभिमाने गलिदं ज्ञानेन परमात्मनि यत्र यत्र मनो यादि तत्र तत्र समाधयः ईप्सितं मनःसः कस्य सम्पद्यते सुखं दैवायत्तं यतः सर्वं तस्मात् सन्तोषमाश्रयेत् यथा धेनुसहस्रेषु वत्सो गच्छति मातरं तथा यच्च कृतं कर्म कर्तारमनुगच्छति अनवस्थितकार्यस्य नजने नवने न वने सुखं जनो दहति संसर्गाद्वनं सङ्गविवर्जनाद् खनित्वा हि कनित्रेण होदले वारिविन्दति तथा गुरुगदां विद्यां शुश्रूषुरधिगच्छति कर्मायत्तं फलं पुंसां बुद्धिः कर्मानुसारिणी तथापि सुद्धीयश्चार्या सुविचार्यैव कुर्वते सन्तोषत्रिषु कर्तव्यस्वदारे भोजने धने त्रिषु चैव न जपदानयोः एकाक्षरप्रदातारं यो गुरुं नाभिवन्दते श्वानयोनिशतं गत्वा चाण्डालेष्वभिजायते श्वा युगान्दे प्रचलेन्मेरु कल्पान्दे सप्तसागराः साधवः प्रतिपन्नार्थान्न चलन्ति कदाचन ओ